मार्कण्डेयपुराणम् अध्यायं 120 अण्ड् ट्वेण्टी अवीक्षिच्छरितवर्णनं मार्कण्डेय उवाच इति सङ्ग्रामसज्जास्ते भूपा भूपसुतस्तथा निराकृता निराकृतास्तुबहुशस्तत्कालं चाप्यवीक्षिता तदो बभूवसङ्ग्रामस्तस्य तैः सह दारुणः एकस्य बहुभिर्भूपैर्भुपुत्रवरैर्मुने ते सिशक्रिगदाबाणपाणयस्तं सुदुर्मदाः अभिघ्नन्दो युयुधिरे तैः सताञ्चरसदैरुग्रैर्बिभेदनृपनन्दनः कृतास्त्रो बलवान् बाणैस्तेज तं बिभिदुषिदैः कस्यचिच्चिच्चिदेबाहुमन्यस्य च शिरोद्धरां हृदि विव्याधैववान्यमन्यं वक्षस्य ताडयत् करं चिच्छेदकरिणस्तुरगस्य तथा शिरः रथस्येषां तथैवाश्वान्रथस्यान्यस्य सारथिम् बाणानापततश्चक्रे द्विधा बाणैस्तथा द्विषां चिच्छेदान्यस्य खड्गं च धनुरन्यस्य लाघवाद तनुत्रेऽपहृदे तेन ननाशान्यो नृपात्मजः अवीक्षिताकतश्चान्यः पतादिः प्रजघ उरणम् इत्याकुलीकृते तस्मिन् समग्रे राजमण्डले तस्तु सप्तशतं वीरा मरणे कृतनिश्चयाः आभिजात्य समन्विताः निर्जिदे सगले सैन्ये पलायन पलायनपरायणे तैः समेत्य महीपालैः सदुपुत्रो महीभृतः युयुद्धे धर्मयुद्धेन तेनतम नादिकोपितः विच्छिन्नयन्त्रकवचान् शतानपि महाबलः कर्तुं व्यवस्थितस्तेज तथ क्रुद्धा महामुने धर्ममुत्सृज्य युयुधुर्युध्यमानेन धर्मतः नरेन्द्रपुत्राः जलक्लिन्ना समम् दिव्याथ कश्चिद्बाणौखै कश्चिच्चिच्छेदकार्मुकं ध्वजमस्य परो बाणैश्चित्वा भूमावपातयत् जघ्नुरन्ये तथैवश्वान् बभञ्जुश्चपरे रथं गदा पादे चान्ये बाणैः पृष्टमताडयन् चिन्ने धनुषि सङ्ग्रोधः सदथा नृपदे सुतः हा। जग्राहासिं तथा चर्म तदप्यन्योऽपादयत् चिन्नासि चर्मा, चर्मा जग्राहसगां गदिनां वरः तामप्यन्यः क्षुरप्रेणचिच्छेदकृतहस्तवद शदेनान्ये अन्े शरसहस्रेण श्ये नाधिपिव्यधुक्कोष्टी धर्मयुद्धपराखा सविवल पव्यारर्जि राजपुत्रा महाभागा बबंधुस्ते चम तत धर्मेण ते सर्वे गृहीत्वा नृपतेः सुतं विशालेन समं राज्ञा वैदिश्यं विविशुः परं हृष्टाः प्रमुदिदा बद्धं समादाय नृपात्मजं स्वयं वराचसा सा कन्यान्यस्तातेन ततः पुनः पुनश्च पित्रोक्ता तथापि च पुरोधसा आलम्ब्यतामिधि वरो यश्चे राजसुरोचते यदा स मानि कञ्चिन्नजग्राहवरं मुने तदा पप्रच्छदैवज्ञं विवाहार्थं नरेश्वरः विशिष्टतरमे दस्याविवाहाय दिनं वद अद्यैदीदृक् सञ्जातं युद्धं विघ्नोपपादकं मार्कण्डेय उवाच इति पृष्टो नरेन्द्रेण सदैवज्ञो विमृश्य तद् दुर्मणाः परमार्थो महीपतिम् भष्यपरा दिना लग्न प्रशस्तुक्ता शोभना चिरेण वै क्यसि विवाह षु प्राप्तषु मानद अलमेन यहापस्थित यीमाकंडेयपुराणे वीक्षिचरिम विश्वशतम ओ